अथ त्रयोविंशः सर्गः प्रभातायाम् तु शर्वर्याम् विश्वामित्रो महामुनिः अभ्यभाषितकाकुत्स्थौ शयानोपर्णसंस्तरे कौसल्यासु प्रजा रामपूर्वा सन्ध्या प्रवर्तते उत्तिष्ठनरशार्दूलकर्तव्यम् दैवमाह्निकम् तस्य हर्षेः परमोदारम् वचः नरोत्तमौ स्नात्वा कृतोदकौ वीरौ जेपतुः परमम् जपम् कृताह्निकौ महावीर्यौ विश्वामित्रम् तपोधनम् अभिवाद्यातिसम्भृष्टो गमनायाभितस्थतुः तौ प्रयान्तौ महावीर्यौ दिव्याम् त्रिपथगान्नदीम् ददृशाते ततस्तत्र सरय्वाः सङ्गमे शुभे तत्राश्रमपदम् पुण्यमृषीणाम् भावितात्मना बहुवर्षसहस्राणि तप्यताम् परमम् तपः तम् दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ऊचतुस्तम् महात्मानम् विश्वामित्रमिदम् वचः कस्यायमाश्रमः पुण्यः कोऽन्वस्मिन्वसते पुमान् भगवन् श्रोतुमिच्छावः परम् कौतूहलम् हिरौ तयोस्तद्वचनम् श्रुत्वा प्रहस्य मुनिपुङ्गवः अब्रवीत् श्रूयताम् राम यस्यायम् पूर्व आश्रमः कन्दर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः तपस्यन्तमिहस्ताणुम् नियमेन समाहितम् कृतोद्वाहन्तु देवेशम् गच्छन्तम् समरुद्गणम् धर्शयामास दुर्मेधा हुङ्कृतश्च महात्मना अवध्यातश्च रुद्रेण चक्षुषा यशीर्यन्तशरीरात् स्वात् सर्वगात्राणि दुर्मते तत्र गात्रम् हतन्तस्य निर्दग्धस्य महात्मनः अशरीरः कृतः मह इति विख्यातस्तदा प्रभृतिराघवा स चाङ्गविषयः श्रीमान्यत्राम् शिष्या धर्मपरा वीर तेषाम् पापम् न विद्यते इहाद्यरजनीम् राम वसेम शुभदर्शना पुण्ययोः सरितोर्मध्येष्वस्तरिष्यामहे वयम् अभिगच्छामहे सर्वेषु जयः पुण्यमाश्रमम् इह वासः परोऽस्माकम् सुखम् स्नाताश्च कृतजप्याश्च हुतः ेषाम् संवदताम् तत्र तपो दीर्घेण चक्षुषा विज्ञाय परमप्रीता मुनयो हर्षमागमन् अर्घ्यम् पाद्यम् तथातिथ्यम् निवेद्य कुशिकात्मजे रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् सत्कारम् समनुप्राप्य कथाभिरभिरञ्जयन् यथार्हमजपन् सन्ध्यामृशयस्ते समाहिताः तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह न्यवसन् सुखम् तत्र कामाश्रमपदे तथा कथाभिरभिरामाभिरभिरामौ नृपात्मजौ रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये बालकाण्डे त्रयोविंशः